अथ तृतीयोऽध्यायः ॐ जनकोऽह वैदेहो बहुदक्षिणेन यज्ञेन यत्रः कुरु पञ्चालानां ब्राह्मणा अभिसमेता बभूवस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कस्विदेषां ब्राह्मणानामनुचानतम इति सहगवाज्ञसहस्रमवरुरोधदशदश पादा एकैकस्या शृङ्गयोराबद्धा बभूवुः ोवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एतादा उदजतानि तेभ्राह्मणा न दधृषु स्वमेव ब्रह्मचारिणमुवाचैता सोम्यो दसामश्रवा इति ताहो दाचकारते ह ्रुमीदेत्यथः जनकस्य वैरेह्यस्य होताश्वलो बभूव सहैनम् पप्रच्छत्वम् खल्मो याज्ञवल् ब्रह्मिष्ठोऽसि इति सहो वाचमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एवयज्ञस्म इति तग्रेह तत एव प्रष्टुम् दद्धे होताश्वः ज्ञवल्क्येति होवाच यदि लग्ने सर्वं मृत्युना तज्ञे सर्वं मृत्युनाधिपन्नङ्केन यदमानो मृत्योराप्तिमतिमुच्यत इति होतत्विदाग्निना द्या वाचा वाग्भयज्ञस्य होता तद्येयम् वाक्सोऽयमग्स्य होता स सा मुक्तिः स्वातिमुक्तिः ेति होवाच यदिद्ने सन्वोरात्राभ्या भ्यामभिपन्नङ्केन यजमानो होरात्रयो राप्तिमतिमुच्यत इत्यध्वर्युण त्विजा चक्षुषादित्येन चक्षुर्वैयज्ञस्याध्वर्यस्तद्य चक्षुःसो सावादित्यस्योध्वर्यस्य मुक्तिः सातिमुक्तिः ज्ञवल्केति होवाच यदि लग्ने सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तज्ञे सर्वं पूर्वपक्षावरपक्षाभ्यामभिपन्नङ्केन यजमानः पूर्वपक्षावरपक्षयो राप्तिमतिमुच्यत इत्युद्घात त्विजा वायुना प्राणेन प्राणो वैयज्ञस्योद्घाता तद्योऽयं प्राणः स मुक्तिः सातिमुक्तिः याज्ञवल्केति होवाच यदिदमन्तरिक्षमणारम्भणमिवतेनाक्रमेण यजमा स्वर्गम् लोकमाक्रमत इति ब्रह्मण मनसा चन्द्रेण मनो वैयज्ञस्य ब्रह्मा तद्यदिदं नानः सोऽसौ चन्द्रः स ब्रह्मा स सा मुक्तिः सातिमुक्तिरित्यति मोक्षा अथ सम्पदः याज्ञवल्क्यति होवाचकिभिरय मध्य होतास्मिन् यज्ञे करिष्यतीति कथमास्तास्ति स इति पुरोऽनुवात्या च याद्या च शस्यैव तृतीया किं ताभिर्जयतीति यत्किञ्चेदम् प्राणभृदिति याज्ञवल्केति होमाचकत्यय मद्याद्धर्युरस्मिन् यज्ञ आहुतेर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति याहुता उज्ज्वलन्ति याहुता अतिनेदन्ते याहुता अधिशेवते किं ता भृजयतीति याहुता उज्ज्वलन्ति देवलोकमेवता भृद्दयति दीप्यथ इव हि देवलोको याहुता अतिनेदन्ते पितृलोकमेव ताभ्यजयत्य एव हि पितृलोको याहुता अतिशेरते मनुष्यलोकमेव ताभ्यजयत्यथ इव हि मनुष्यलोकः याज्ञवल्ज्येति भोवाच कतिभिरयमद्वद्ब्रह्मा यज्ञं दक्षिणतो देवताभ्यद्गोपायति चेकयेति कथमाश्रीकेति मन एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति याज्ञवल्जेति भोवाच कत्यय मद्भ्योद्घातास्मिन् यज्ञे स्तोष्यतीतिस्र इति कथमास्तास्तिस्र इति पुरोनुवाक्या च याज्ञा च तृतीया कथमा अध्यात्ममिति प्राण एव पुरोनुवाक्यामानो याज्ञानस्यां ताभ्यतीति पृथिवी लोकमेव पुरोनुवाक्यया लोकप्रेशस्य यातो होताश्वल उपलवामा अथ हैनञ्जारत्कारव आप्तभागः प्रच्छयाज्ञवल्क्येति होवाच कतिग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा प्राणो वै ग्राहस्थोपानेनातिग्राहेण गृहीतोपानेन हि गन्धान् जिघ्रति वाग्वै ग्रहस्सनाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति जिह्वा वै ग्रहस्य रसेनातिग्राहेण गृहीतो जिह्वाया रसान् विजानाति चक्षुर्वै ग्रहस्सरूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि पश्यति श्रोत्रम् वै ग्रहस्य शब्देनातिग्राहेण गृहीतश्रोत्रेण हि शब्दाञ्छृणोति मनो वै ग्रहस्य कामेनातिग्राहेण गृहीतो मनसा हि कामान् कामयते हस्त वै ग्रहस्थक्रहेण गृह हस्ता कर्म कौतीहर्शेनातिग्रहेण गृहतस्वचास्पर्शा वेदयत ग्रहा अष्टाव्रहा याज्ञवल्क्येतिहोवाच यदि लग्ने सर्वं मृत्योरन्नङ्कास्वित् सा देवता यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोपामन्नमपपुनर्मृत्युञ्जयति याज्ञवल्क्येतिहोवाच यत्रायम् पुरुषो यत उरस्मात् प्राणाः क्रामन्त्याहो नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स उच्छ्रयत्या ध्यायत्या ध् मातो मृतश्चेते याज्ञवल् किमेन न जहातीति नामेत्यनन्तम् वै नामानन्ता विश्वेदे वा अनन्तमेव सेन लोकम् जयति ेति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वा गप्येति वाकं प्राणश्चक्षुरादित्यं मनस्कं श्रोत्रं पृथिवीग्मौषधी लोमानि वनस्पतीन् केशाहितं च वेतश्च निधीयते क्वायम् तदा पुरुषो भवतीत्याहरसोऽहस्तमार्तभागा वामे वै तस्य वेदिश्यावो नना वेत्तत्सजन इति तौहोत्क्रम्यमन्त्रयाञ्चक्राते तौ हयदोचतुः है कर्म हैव तदोचतुरथ यत्प्रशसज्ञे सतुः कर्म हैव तत्प्रशसज्ञे पुण्येन कर्मणा भवति पापः पापेनेति ततो हारत्कालभाग ीणम् भुज्वल्लाश्याः पप्रच्छयाज्ञरकाः पर्यं वरामते पचञ्चलस्य काप्यस्य गृहा नस्यासीद् दुहिता गन्धर्व गृहीता तम पृच्छामकोऽसीदिति सोऽत् सुधन्वाङ्गिरस इति संयथा लोकानामन्तान् पृच्छामाब्रुवक्व परीक्षिता क्व पारिक्षिता अभवन् सत्त्वा पृच्छामि याज्ञवल्क्यक्व पारिक्षिता अभवन्निति सहोवाचो वाच वै सो गच्छन् वै ते तद्यत्राश्वमेधया जिनो गच्छन्तीति क्वन् वश्वमेधया जिनो गच्छन्तीति ध्वातृग्नेशतं वै देवरथाने समन्तं पृथिवीद्विस्तावत्पर्येति ताग् समन्तं पृथिवीद्विस्तावत्समुद्रः पर्येति तद् यावतीक्षुरस्य धारा यावत् द्वा मक्षिकायाः पत्रं तावानन्तरेणाकाशस्तानिन्द्रः सुवरुणो भूत्वा वायवे प्रायच्छत्तान् वायुरात्मनिधित्वा तत्रायुभ्यत्राश्वमेधया जिनो भवन् नित्येव निलवै स वायुमेव वा प्रशशब्दे स तस्माद्वायुरेवं व्यष्टिर्वायुः समष्टिरपपुनर्मृत्युं जयति एवं वेद ततो ख्याय निपरामा षस्तश्चात्रायणः पप्रच्छयाज्ञोवाच यत्साक्षात् परोषाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येषत आत्मा सर्वान्तरः कतमो याज्ञवल्क्यसर्वान्तरो यः प्राणेन प्राणिति सत न्तरयज्ञानेन जानिति सतः मा सर्वान्तरय उदानेनो जानिति सतः मा सर्वान्तरयेषतः मा सर्वान्तरः सहो वाचोषस्तश्चाक्रायणो यथा विभ्रो यादसौ गौरसाभ्यैत्येवमेवैतव्यपदिष्टं भवति यदेव साक्षात् परोक्षाद् ब्रह्म य आत्मा सर्वान्तरस्तं व्याचक्ष्वेत्येक्षतः आत्मा सर्वान्तरः कतमो ोतारज्ञे शृणुया न मतेर्मन्तारम् मन्वीथा न विज्ञातेर्विज्ञातारम् विजानीया एषतः सर्वान्तरतोऽन्यदातन्ततो होषस्तश्चात्रायण उपरराम अथ हैनङ्कहोळः कौशीतकेयः पप्रच्छयाज्ञवल्क्येति होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तम्ये याचक्ष्वेत्येषत आत्मा सर्वान्तरः कतमो याज्ञवल्क्यसर्वान्तरो योशनायापिपाशे शोकं मोहञ्जरां मृत्युमत्येत्येतं वैतमा त्मानम् मिलित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्रैषणायाश्च ये षणेव भवतस्तस्माद् ब्राह्मणः निष्ठासे बाल्यञ्च पाण्डित्यञ्च निर्मिद् व्याथमुनिरमौनञ्च मौनम् च निर्मिद् व्याथभ्याह्मणः सभ्याह्मणः केन स्याद्येन स्यात्केने दिश एवातोऽन्यदातनम् ततो ह कहोडः अथ हैलङ्काद्गीवाचग्दीपप्रच्छयाग्नवल्केति भोवाच यदि रग् सर्वमप्स्वतन्त्र प्रोतञ्च कस्मिन् खल्वापकोताश्च प्रोताश्चेति वायौराद्गीतिकस्मिन् खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोके तुीतिकस्मिन् खल्वन्तरिक्षलोका कोताश्च प्रोताश्चेति लोकेषुगाद् गीतिकस्मिन् खलु गन्धर्वलोका ओताश ओताश ओताश्च प्रोताश्चेत्यादित्यलोकेषु गाद्गीतिकस्मिन् खल्वादित्यलोका ओताश्च प्रोताश्चेति चन्द्रलोकेषु भोताश्च प्रोताश्चेति देवलोकेतुगा गीतिकस्मिन् खलु देवलोका भोतास्त्र प्रोताश्चेतीन्द्रलोकेषु गाद्गीतिकस्मिन् खल्वीन्द्रलोका भोताश्च्र प्रोताश्चेति प्रजापतिलोकेषु गाद् गीतिकस्मिन् खलु प्रजापतिलोका भोतास्त्र प्रोताश्चेति ब्रह्मलोकेषु गात् गीति कस्मिन् खलु ब्रह्मलोका गोताश्च प्रोताश्चेति सहोवाच गाग्रिमाचिप्राक्षीर्माते मूर्धा व्यपक्तदनति प्रश्नाम्बै देवतामतिपृच्छसि गाग्रिमातिप्राक्षीदिति ततोह गाग्री वाचक्नव्यपररामा अथ मैन मुद्दा आरुणि पक्षया होंचम साम पतंजल का गृहेश यमया ना भारिया गृहता तम पृथ्धाकोसी सौब्रवीत अथर्वण सौब्रवीत पतंजल कािस्वेथन का प्यतत् शोण येनायञ्च लोकः परश्च लोकः भूतानि सन्दृभ्यानि भवन्ति द्विसोऽब्रवीत् पतञ्जलः का, का, का, का, ने ने का यो नाहं तद्भगवन् वेदे द्विशोऽब्रवीत् पतञ्जलङ्काप्ययाज्ञिका गश्च वेत्थनुत्वं काप्यतमन्तर्यामि नैव लोकम् परञ्च लोके सर्वाणि च भूतानि ोऽन्तरोयमयति इति सोऽब्रवीत् पदञ्चलः का यो नाहं तम् भगवन् वेदे सोऽब्रवीत् पदञ्चलङ्काप्यज्ञिका नश्च यो विद्या तञ्चान्तर्यामिणमिति स ब्रह्मवित् तदहं वेद तच्चेत्त्वयाज्ञवल्क्यसूत्रमविद्वाग्स्तञ्चान्तर्यामिणम् ब्रह्मगवीकृतजसे मोर्धाते विपतिष्यतीति वेद वा अहम् गौतमतत्सूत्रम् तञ्चान्तर्यामिणमिति यो वा इदम् कश्चिद्ब्रूयाद् वेद वेदेति यथा वेत्थ तथा ब्रूहीति सहोवाच वायुर्वैगौतमतत्सूत्रं वायुना वैगौतमसूत्रेणायं च लोकः ्रूहीति यः पृथिव्याम् तिष्ठन् पृथिव्या अन्तरोऽयम् पृथिवी न वेरयस्य पृथिवी शरीरम् यः पृथिवीमन्तरोऽयमयत्येषत आत्मान्तर्याम्यमृतः योऽप्सु तिष्ठन्नद्भ्योऽन्तरोऽयमापो न विदुर्यस्यापः शरीरम् योऽपोऽन्तरोऽयमयत्येषत आत्मान्तर्याम्यमृतः योऽग्नौ तिष्ठन्नग्नेरन्तरोऽयमग्निर्न वेद यस्याग्निशरीरं योऽग्निमन्तरोऽयमयक्ते शतः आत्मान्तर्याम्यमृतः योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरोऽयमन्तरिक्षन्न शरीरं योऽन्तरिक्षमन्तरोऽयमयक्त्येषतः आत्मान्तर्याम्यमृतः यो वायु तिष्ठन् वायोरन्तरोऽयम् वायुर्नवेदयस्य वायुः शरीरं यो वायुमन्तरोऽयमयत्येषत आत्मान्तर्याम्यमृतः यो दिवि तिष्ठन् दिवोऽन्तरोऽयम् द्यौर्नवेदयस्य द्यौः शरीरं यो दिवमन्तरोऽयमयत्येषत आत्मान्तर्याम्यमृतः य आदित्ये तिष्ठन्नादित्यादन्तरो यमारित्यो न वेद यस्यादित्यशरीरञ्जय आदित्यमन्तरो यमयत्येषतः आत्मान्तर्याम्यमृतः यो दिक्षु तिष्ठन् द्विभ्योऽन्तरोऽयम् दिशो न विरुर्यस्य दिश् शरीरञ यो दिशोऽन्तरोऽय मयत्येषत आत्मान्तर्याम्यमृतः यश्चन्द्रतारके तिष्ठग्निश्चन्द्रतारकादन्तरोऽयञ्चन्द्रतारकन्न वेद यस्य चन्द्रतारकग्निशरीरञ यश्चन्द्रतारकमन्तरोऽय मयत्येषत आत्मान्तर्याम्यमृतः य आकाशे तिष्ठन्नाकाशादन्तरोऽयमाकाशो न वेदयस्याकाशः शरीरञ य आकाशमन्तरोऽयमयत्येषतः आत्मान्तर्याम्यमृतः यस्तमसि तिष्ठग्स्तमसोऽन्तरोऽयन्तमो न वेद यस्य तमः शरीरै यस्तमोऽन्तरोऽयमयप्त्येषतः यस्तेजसि तिष्ठज्ञस्तेजसोऽन्तरो तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरयमयत्येषतः आत्मान्तर्याम्यभ इत्यधिदैवतमथाधिभूतम् यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरयज्ञे सर्वाणि भूतानि न विरुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरोऽयमयत्येषत आत्मान्तर्याम्यत इत्यधिभूतमथाध्यात्मम् यः प्राणे तिष्ठन् प्राणादन्तरोऽयं प्राणो न वेद यस्य प्राणशरीरं यः प्राणमन्तरोयमयत्तेषतः आत्मान्तर्याम्यमृतः यो वाचि तिष्ठन् वाचोऽन्तरोयं वाङ्नवेदयस्य वाक्शरीरं यो वाचमन्थरोयमयत्तेषतः आत्मान्तर्याम्यमृतः यश्चक्षुषि <imerkXu> तिष्ठग्क्षुषान्तरोऽयम् चक्षुर्न वेद यस्य चक्षुः शरीरै यश्चक्षुरन्तरोऽयमयत्येषत आत्मान्तर्याम्यमृतः यः श्रोत्रे तिष्ठन् श्रोत्रादन्तरो यज्ञश्रोत्रन्न वेद यस्य श्रोत्रज्ञशरीरं यः श्रोत्रमन्तरोऽय यो मनसि तिष्ठन्मनसोऽन्तरोऽयं मनो न वेद यस्य मनःश्शरीरं यो मनोन्तरोऽय मयत्तेेषत आत्मान्तर्याम्यमृतः यस्वचि तिष्ठज्ञस्त्वचोऽन्तर्यन्त्वं न वेद यस्य त्वक्शरीरं यस्त्वच मन्तरोऽयमयत्येषत आत्मान्तर्याम्यमृतः यो विज्ञाने तिष्ठन् विज्ञानादन्तरोऽयं विज्ञानं न वेद यस्य विज्ञानज्ञे शरीरं यो विज्ञानमन्तरोऽयमयत्तेषत आत्मान्तर्याम्यमृतः यो रेतसि तिष्ठन् रेतसोऽन्तरो यज्ञ रेतो न वेद यस्य रेतशरीरं यो रेथोऽन्तरो यमयत्येषत आत्मान्तर्याम्य ऋतो दृष्टो द्रष्टाश्रुतश्रोतामतो मन्त्राभिज्ञातो विज्ञातानां योतोऽस्ति द्रष्टाणान्यतोऽस्ति श्रोतानां यतोऽस्ति मन्त्राणान्यतोऽस्ति ैशत आत्मान्तर्याम्यमृतोतोऽन्य आरुणिरुपररामा अथवाच क्रम् विवाच ब्राह्मणा भगवन्तोऽहन्ताहमिमन्तौ प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न साहो वाजाहम्भयीत्वा याज्ञवल्क्य यथा काशो वा वै देहो वोग्रपुत्रभुज्यम् धनुरधिज्यम् कृत्वा द्वौ बाणवन्तौ हस्ते कृत्वोपोत्तिष्ठे तिष्ठे त्वा द्वाभ्याम् कृष्णाभ्यामुपोदस्था मे साहोवाच यदूर्ध्व्याज्ञवल्क्य दिवो यदवा पृथिव्या यदन्तराद्या वापृथिवी इमे यद्भूतञ्च भवत्र भविष्यच्चेत्या चक्षते कस्मिग्स्तदोतन्त्र प्रोतञ्चेति स होवाच यदूर्ध्वगिदिव यदवाक् पृथिव्या यदन्तराध्या इमे यद्भूतम् च भवच्च भविष्यच्चेत्याचक्षत आकाशे तद्भूतम् च प्रोतञ्चेति सा होवाच याज्ञवल्क्यो म एतम् व्यवोचो परस्मै ्याज्ञवल् यद् वाक्पृथिव्या यदन्तराद्या वापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्या चक्षते कस्मिस्तभूतम् च प्रोतञ्चेति सहोवाच यदूर्ध्वम् दार्गि दिवो यदवापृथिव्या यदन्तराध्या वापृथिवी इमे यद्भूतम् च चक्षत आकाश एव तदोतम् च प्रोतम् चेति कस्मिन्वाकाशवोतश्च प्रोतश्चेति तद्वै सहोवाचैतद्वैतदक्षरङ्गार्गिब्राह्मणा अभिवदन्त्यस्थो रमणन्वक्त्रस्वमदीर्घमलोहितमस्नेहमच्छायनाकाशमसङ्गमरसमगन्धम चक्षुष्कम श्रोत्रमबारमन तेजस्कमप्राणममुखममात्रश्नाति किञ्चन न तदस्नाति कश्चन स्य वा अक्षरस्य प्रशासने गार्गिसूर्या चन्द्रमसौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गिद्या वा पृथिव्यौ विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गिनिमेषा मुहूर्ता अहोरात्राण्यर्धमासामासाय तवः संवत्सरा इति विधृतास्ति ेतस्य वा अक्षरस्य प्रशासने गार्ग्यप्राच्योन्यानद्यस्य दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योन्यायान्तदिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि दधतो मनुष्याः प्रसग्रे सन्ति यजमानन्दे वा दर्वी पितरोन्वायत्ताः यो वा एतदक्षरङ्गार्ग्यविदित्वाऽस्मिल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति यो वा एतदक्षरङ्गार्ग्य विदित्वा स्माल्लोकात् प्रैति सकृपणोथय एतदक्षरङ्गार्ग्य विदित्वा स्माल्लोका त्रैति सब्राह्मणः तद्वा एतदक्षरम् गार्ग्यदृष्टम् द्रष्टश्रुतज्ञश्रोत्रमतम् मन्त्रविज्ञातम् विज्ञाते नान्यदतोऽस्ति द्रष्टे नान्यदतोऽस्ति श्रोत्रे नान्यदतोऽस्ति मन्त्रे नान्यदतोऽस्ति विज्ञात्रे तस्मिन् फल्वक्षरे गार्ग्याकाशगोतश्च प्रोतश्चेति होवाच ब्राह्मणा भगवन्तस्तदेव बहुमन्ये ध्वयस्मान्नमस्कारेण मुच्ये ध्वन्नवै जातु युष्माकमिमं कश्चिद् ब्रह्मोद्यम् चेतेति ततोवाचक्रव्युवररा अस हैनं विदग्धः साकल्यः पप्रच्छ कतिदेवा याज्ञवल्केतिसहैतयैव निविरा प्रतिपेदे यावन्तो वैश्वदेवस्य नि विद्युच्यन्ते त्रयश्चत्री च शतात्त्रयश्चत्री च सहस्रेत्योमिति होवाचकत्येव देवा याज्ञवल्केतित्रयस्त्रिघेषदित्योमिति होवाचकत्येवदेवायाज्ञवल्के ोवाच गत्येव याज्ञवल्के होवाच गत्येव याज्ञवल्केचिद्भावित्योमिति एक इत्योमिति होमाचकतमेते त्रयश्च त्रीतशता त्रयश्च त्रीशसहस्रेति स होवाच महिमान एवैषामेते त्रयस्त्रिग्नेषत्वेव देवा इति कथमेते त्रयस्त्रिग्षदित्रष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिग्षदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिग्देशाविति कथमे वसव इत्यग्निश्च पृथिवी च बायिश्चान्तरिक्षञ्चालित्यश्च द्रौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव एतेषु हीतम् वसु सर्वज्ञे हितमिति तस्माद्वसव कत मे रुद्रा इति दशे पुरुषे प्राणा आत्मैकादशस्ते यदास्माच्छरीरान्मत्यादुत्क्रामन्त्यथ रोदयन्ति यद्रोदयन्ति तस्माद् रुद्रा इति कथमादित्या इति द्वादश वै मासा संवत्सरस्यैत आदित्या हि र सर्वमाददाना यदि रग्र सर्वमाददाना यन्त्रितस्मादादित्या इति कतम इन्द्रः कतमः प्रजापतिरितिस्तनयित्नु रेभेन्द्रो यज्ञः प्रजापतिरिति कतमस्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति कतमे षणित्यज्ञिश्च पृथिवी च वायुश्चान्तरिक्षञ्चालित्यश्च ज्यौश्चैते षळेथे हीरग्ने सर्वज्ञे षलिति कतमेते त्रयो देवा इति म एव त्रयो लोकायेषु सर्वे देवा इति कतमौ तौ द्वौरे वा वित्यन्नम् चैव प्राणश्चेति कतमोऽभ्यर्थ इति योऽयम् पवत इति तदाद में वैपवतेथ कथमध्यथ्यलग्नेवध्याधन चा नाध्यथी कथम एकको देणईति स ब्रह्म त्यजिताचक्षसे ृचिम्येव यस्यायतनमग्निर्लोको मनो ज्योतिर्यो वैतं पुरुषं विद्यात् सर्वस्यात्मनःपरायणग्रे सभैवेदिता स्याद्याज्ञवल्ल्यभेदवा अहन्तं पुरुषग्रे सर्वस्यात्मनःपरायणैयमात्रय एवायज्ञ शारीरः पुरुषस्य एषवदैव शाकल्य तस्य का देवत्यमृतमिति वाच काम एव यस्यायतनज्ञ हृदयं लोको मनो ज्योतिर्योगितं पुरुषं विद्यात् सर्वस्यात्मनःपरायणज्ञे स वैवेदितास्याद्याज्ञवल्क्य वेद अहन्तं पुरुषज्ञे सर्वस्यात्मनःपरायणैयमार्थय एवायङ्कामपयः पुरुषस्सेश वदैव तस्य कादेव तेति वाँ चाँ चाँ ण्येव यस्यायतनञ्चक्षुर्लोको मनो ज्योतिर्यो वैतं पुरुषं विद्यात् सर्वस्यात्मनःपरायणग्रे सभिवेदिता स्याद्याज्ञवल्क्यभेदवाहन्तं पुरुषग्रे सर्वस्यात्मनःपरायणैयमार्थय एव सावादित्ये पुरुषस्य एष वदैव शाकल्यतस्य काले सत्यमिति Oh, my God. आकाशदेव यस्यायतनग्निश्रोत्रल्लोकमनो ज्योतिर्यो वैतं पुरुषं विद्यात् सर्वस्यात्मनःपरायणे स वैवेदिता स्याद्याज्ञवल्क्य वेदवा अहं तं पुरुषग्ने सर्वस्यात्मनःपरायणैय मार्थय एवायज्ञश्रोत्रः प्रातिश्रुत्रः पुरुषस्य एकवदैव शाकल्य तस्य देव तेति दिश इति होवाच तम एव यस्यायदनज्ञे हृदयं लोको मनो ज्योतिर्यो पुरुषं विद्यात् सर्वस्यात्मनःपरायणज्ञेश वैवेदिता स्याद्याज्ञवच्च पुरुषज्ञे सर्वस्यात्मनःपरायणयमाचयवायञ्छायामयः पुरुषस्य एशवदैव शाकल्यतस्य का रूपाण्येव यस्यायतनञ्चक्षुर्लोको मनो ज्योतिर्यो वैतम् पुरुषम् विद्यात् सर्वस्यात्मनः परायणग्रेश वैवेदिता स्याद्याज्ञवल्क्यवेदवाहन्तम् पुरुषग्रे सर्वस्यात्मनःपरायणैयमार्चय एवायमादृशे पुरुषस्य एष वदैव चाकल्यतस्य काले वेत् वाच आप एव यस्या यदनग्नेहृदयम् लोको मनो ज्योतिनियो वैतम् पुरुषम् विद्या मनपरायण जे सभीता सद्यावल्यद वांतर्मनपरायणयमस पुष्वदाकल्य तेजी वरुण ेत एव यस्यायतमग्रे हृदयं लोको मनाज्योतिर्यो वैतं पुरुषं विद्या सर्वस्यात्मनःपरायणग्रे स वैवेदिता स्याद्याज्ञवल्क्यभेदवाहन्तं पुरुषज्ञे सर्वस्यात्मनःपरायणैयमाचय एवायं पुत्रमयः पुरुषः स एष वदैव साकल्य तस्य ेवति प्रजापतिरिति होवाच साकल्येति होवाच याज्ञवल्क्यस्त्वाङ्गस्मिति मे ब्राह्मणाङ्गारावक्षयणमकृता केति होवाच शाकल्यो यदि गङ्कुलपञ्चदानाम् ब्राह्मणा नत्यवादि किम् ब्रह्मविद्वानिति दिशो वेदसदेवाः स प्रतिष्ठा इति यद्दिशो वेदसदेवाः सप्रतिष्ठाः किं देवतो स्यान् ीत्यादित्यदेवत इति स आदित्यः कस्मिन् प्रतिष्ठित इति चक्षुषीति कस्मिन् चक्षुः प्रतिष्ठितमिति रूपेष्विति चक्षुषा हि रूपाणि पश्यति यस्मिन् रूपाणि प्रतिष्ठितानीति हृदय इति होवाच हृदयेन हि रूपाणि जानाति हृदये केवलरूपाणि प्रतिष्ठितानि भवन्तीत्येव मे वै किन्दतोस्याम् दक्षिणायाम् दिश्यसि इति यमदेवत इति संयमः कस्मिन् प्रतिष्ठित इति यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धाया विधि यदाह्येव श्रद्ध दक्षिणाम् ददाति श्रद्धाया ेव दक्षिणा प्रतिष्ठितेति कस्मिन्नश्रद्धा प्रतिष्ठितेति हृदय इति होवाच हृदयेन हि श्रद्धा जानाति हृदये श्रद्धा प्रतिष्ठिता भवतीत्येवमेवैतद्याज्ञवल्क्या किं देवतोश्याम् प्रतीच्याम् दिश्यसीति वरुणदेवत इति स वरुणः कस्मिन् प्रतिष्ठित इत्यप्श्रिति कस्मिन्वापः प्रतिष्ठिता इति रेतसीति कस्मिन् रेतः प्रतिष्ठितमिति हृदय इति कस्मादपि प्रतिरूपम् जातमाहृदयादिव श्रुत्वा हृदयादिव इति हृदयेत्येव रेतः भवतीत्येवमेवैतद्याज्ञवल्क्या किं देवतोऽमुदीक्षा दिश्यसीति सोमदेवत इति स सोमः कस्मिन् प्रतिष्ठित इति दीक्षायामिति कस्मिन्नुदीक्षा प्रतिष्ठितेति सत्य इति तस्मादपि दीक्षितमाहुः सत्यम् पदेति सत्ये ह्येवदीक्षा प्रतिष्ठितेति कस्मिन्नुसत्यम् प्रतिष्ठितमिति हृदय इति होवाच हृदयेन सत्यम् जानाति हृदये एव सत्यम् प्रतिष्ठितम् भवतीत्येवमेवैतद्याज्ञवल्क्या किम् देवतोस्यान्ध्रुवाया दिश्यसीत्यग्निदेवत इति सोऽग्निः कस्मिन् प्रतिष्ठित इति वाचित् कस्मिन् वाक् प्रतिष्ठितेति हृदय इति कस्मिन् हृदयम् प्रतिष्ठितमिति अहल्लिकेति होवाच याज्ञवल्क्य यत्रैतदन्यत्रास्मन्मन्यासै यद्धे तदन्यत्रा स्मत्स्याच्छ्वादो वै कस्मिन् त्वञ्चात्मा च प्रतिष्ठितो स्थ इति प्राण इति कस्मिन् प्राणः प्रतिष्ठित इत्यपान इति कस्मिन्वपानः प्रतिष्ठित इति व्यान इति कस्मिन्व्यानः प्रतिष्ठित इत्युदान इति कस्मिन्नो दानः प्रतिष्ठित इति समान इति सरेषमेति नेत्यात्मा गृह्यामि हि गृह्यते शील्यामिहि शील्यते न सज्जते सितोनं व्यथते न लोका अष्टौ देवा यस्तान् पुरुषान्यदस्य प्रत्युक्त्यक्रामत्तन्तोपनिषदम् पुरुषम् पृच्छामि तञ्चेन्मेन विवक्ष्यसि मोद्धाते विपतिष्यतीति तद्वेह न शाकल्यस्तस्य होधातापि हास्य मन्यमानाः च ब्राह्मणा भगवन्तो यो वः कामयते समापृच्छतु सर्वे वामापृच्छत यो वः कामयते तम् वः पृच्छामि सर्वान् वावः पृच्छामीति देहब्राह्मणा न दधनुः ताह्ैतैश्लोकैः पृच्छा यथा वृक्षो वनस्पतिस्तथैव पुरुषो मृषा तस्य लोमानि वर्णाणि त्वगस्य पाटिका बहिः त्वच देवास्य रुधिरम् पस्यत्वच उत्पटः तस्मात्तदातृणात्रैति रसो वृक्षादिवाहता माज्ञे सान्यस्य शकराणि किराटज्ञस्नावतत्स्थिरम् अस्थीनों दारूणी मज्जा मज्जोप यृक्षो वृक्नो रोहति मूला नवतर पुनः मतस्वृत् कस्मा प्ररोहतितसमोचतवतः प्रजायते। धानारुहैव वै वृक्षोञ्जसा प्रेत्यसंभवः यत्स मूलमावृहेयुर्वृक्षम् न पुनराभवेत् मत्यस्मिन्मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति जात एव न जायते कोम्येन जनयेत्पुनः विज्ञानमानन्दम् ब्रह्मराजद्धातुः परायणम् तिष्ठमानस्य तद्विदयिति ओ इति धेयोऽध्यायः